चमकघनम् अनुवाकं फोर् 4 चोर् गो च मे मे चोर् गो च मे च मे मे च च मे सो नृ दा सो नृ द मे च च मे सो नृता च सो नृदा च च च चच सो नृदा सोनृदा च मे मे च सो नृदा सोनृदा च मे च मे मे च च मे पयःपयो मे च च मे पयः मे मे मे पयश्च मे मे पयश्च पयश्च च पहः पयश्च मे मे च पयः पयश्च मे च मे मे च च मे रसो रसोमे च च च च रसो रसोमे मे रसश्च चरसो मे मे रसश्च रसश्चरसो रसश्च मे मे चरसो रसश्च मे चमे मे चच मे कृदं कृतं मे चच मे कृदं मे कृं मे मे कृदं च कृदं च च मे मे च मे मे मे मधु मधु मे मधु मे मधु मधु मे मे मधु च च मधु मे मे मधु च मधु च च मधु मधु च मे मे च मधु मधु च मे च मे मे च च च मे मे मे शक्धिश्च च सक्तिशिषिस्पीति सपीतिर्मे च मे सपीति मे सपीति सपीतिर्म मे सपी सपीतिर्मे मे सपीति सपीतिश्च च सपीति सपीतिश्च मे मे मे सपीदिः स मे मे च मे कृषिकृषिर्मि मे कृषिः मे कृषिकृषिर्मे मे मे कृषिश्च कृषिश्च चकृषे कृषिश्च मे मे कृषिश्च मे च मे मे चचा मे वृष्टिर्वृष्टिर्मे चचा मे वृष्टिः मे मे वृष्टिश्च च वृष्टिर्मे मे वृष्टिश्च वृष्टिश्च च वृष्टिर्वृष्टिश्च मे मे च वृष्टिर्वृष्टिश्च मे मे च च च मे जैत्रं जैत्रं च च मे मे जैत्रं जैत्रं मे मे च जैत्रं मे मे जैत्रं च च जैत्रं च मे मे च च मे च मे च च मौद्भिद्यं मौद्भिद्यं मे च च म औद्भिद्यं औद्भिद्यं चौद्भिद्य मौद्भेद्यं च मे मे चौद्भेद्य मौद्भेद्यं च मे औद्भेद्य मित्याौद्भिद्यं च मे मे च च मे रयि रयिर्मे च च मे रयिः मे रयि रयर्मे मे रयिश्च च मे रयिश्च रयिश्च चरयि रयिश्च मे मे चरयि रयिश्च मे च मे मे च च मेरायो रायो मे च च मे रायो रायो मे मे रायश्च चरायो मे रायश्च रायश्च चरायो रायश्च मे चरायो रायश्च मे च मे मे चज मे पुष्टं पुष्टं मे चज मे पुष्टं मे पुष्टं पुष्टं मे मे पुष्टं च जष्टं मे मे पुष्टं च पुष्टं चज पुष्टं पुष्टं च मे मे ज पुष्टं पुष्टं च मे च मे मे चज मे पुष्टिपुष्टिर्मे चज मे पुष्टिः मे पुष्टि पुष्टिर्मे मे पुष्टिश्च च पुष्टिर्मे मे पुष्टिश्च पुष्टिश्च च पुष्टि पुष्टिश्च मे मे च पुष्टि पुष्टिश्च च मे मे च च च मे च च च च च च विभो मे विभु विभु मे विभु च च मे मे विभु च ज विभु विभु च मे मे ज विभु विभु च मे विभु च मे मे प्रभु प्रभु मे प्रभु मे प्रभु प्रभु मे प्रभु च प्रभु मे प्रभु च प्रभु च च प्रभु प्रभु च मे मे च प्रभु च मे प्रभुवेदे प्रभु च मे मे च च मे बहु मे च मे बहु मे मे बहु च बहु च बहु मे मे च मे च मे मे च च च मे भूयो भूयो मे च च मे भूयः मे भूयो भूयो मे मे भूयश्च च भूयो मे मे भूयश्च भूयश्च च भूयो भूयश्च मे मे च भूयो भूयश्च मे च मे मे च च च मे पूर्णं मे पूर्णं पूर्णं मे मे पूर्णं च च पूर्णं मे मे पूर्णं च पूर्णं च च मे मे च पूर्णं पूर्णं च मे च मे मे च च च मे पूर्णतरं पूर्णतरं च च पूर्णतरं पूर्णतरं च मे मे च पूर्णतरं पूर्णतरं च मे पूर्णतरमिधि पूर्णतरं अक्षितिश्च चाक्षिदिरक्षितिश्च मे मे चाक्षिदिरक्षितिश्च मे च मे मे च च मे कोयवाकोयवा मे च च मेकोयवाः मे कोयवाकोयवा मे मे कोयवाश्च चकोयवा पूयवाश्च च पूयवाकूयवाश्च मे मे च पूय वाक्कूयवाश्च मे च मे मे च च मेन्नमन्नं मे च च मेन्नं मेन्नमन्नं मे मेन्नं च चानं मे मेन्नं च अन्नं च चान्नमन्नं च मे मे चानमन्न मे च मे मे च च मेक्षुदक्षुन्मे च चाक्षुन्मे मेक्षुच्च अक्षुच्च चाक्षुदक्षु च मे मे मे च मे मे मे व्रीहयो व्रीहयो मे व्रीहयो व्रीहयो मे मे च व्रीहयो मे मे व्रीहयश्च च व्रीहयो व्रीहयश्च मे च व्रीहयोः व्रीहयश्च मे च मे मे च च च मेय वाय वा मे मे य वाश्चच य वा मे मे यवाश्च यवाश्चचय मे माष माष मे मे माशाश्च मे माशाश्च माषाश्चमाषमाशाश्च मे मे मे च मे मे च मेतिलास्तिला मे मेतिलाश्च च मे मेतिलाश्च च मे मे च मे मुद्गमुद्गे मे मेगाश्च मुद्गाश्च मुग्गमुग्गाश्च मे मे च मुग्गा मुग्गाश्च मे च मे मे च मे खल्वा खल्वा मे च च मे खल्वाः मे खल्वा खल् कल्वाश्च चकल्वा खल्वाल्वाश्च मे मे च चचमे खल्वाश्च मे च मे मे च च मे गोधूम गोधूमा मे च च मे गोधूमः मे गोधूमा मे गोधूमा मे मे गोधूमाश्च गोधूमाश्च च गोधूमा गोधूमाश्च मे मे च गोधूमा गोधूमाश्च मे च मे मे च च मे मसुर मसुर मे च च च च मे मसुराः मे मसुर मसुर मे मे मसुराश्च च मसुर मे मे मसुराश्च मसुराश्च चमसुरामसुराश्च मे मे चमसुरामसुराश्च मे च मे मे च च मे प्रियङ्गवप्रियं वो मे च मे प्रियङ्गवः मे प्रियङ्गव प्रियङ्गवो मे मे प्रियङ्गवश्च च प्रियङ्गवो मे मे प्रियं गवश्च च प्रियं गः प्रियं वश्च मे च प्रियं च च मेणवो नवो मे च च मेणवः मेणवो नवो मे मेणवश्च चाणवो मे मेणवश्च श्चाणवो णवश्च मे मे चणवो नवश्च मे च मे श्यामकाः मे श्यामाका श्यामकाश्च श्यामाका मे श्यामकाश्च श्याम काश्च च श्यामा का श्याम काश्च मे मे च श्यामा का श्यामा काश्च मे च मे मे च चमे निवारा निवारा मे च चमे निवारा मे निवारा निवारा मे मे निवाराश्च च मे मे निवाराश्च निवाराश्च च निवारा मे मे च निवारा निवाराश्च मे च मे मे च च इति मे